नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् तर्हि अहं किं चिन्तयामि इति चेत् अद्य बहवः नूतनजनाः सन्ति इति कृत्वा पुनः आरम्भतः एकवारं वयं पश्यामः यतोहि गतवर्गे किञ्चित् कृतमासीत् परन्तु पुनः एकवारं पश्यामः येन सर्वेषां लाभः भवति तर्हि अत्र प्रथमतया योगः इति विषयः तु अस्मि अस्माकं सर्वेषां तु परिचयः एव अस्ति इत्युक्ते योगः इति विषयः बहु प्रसिद्धः वर्तते लोके योगः इत्युक्ते सामान्यतया एक्सरसाइज व्यायामः आसनानि इति एव रूपेण जनाः जानन्ति परन्तु एतादृशविचारः सम्यक् अस्ति वा इति वयम् अस्मिन् वर्गे वयं पश्यामः योगः नाम कः इति वयं इत्यस्य विषये वयं चर्चां कुर्मः अन्यदपि वक्तव्यम् अत्र योग योगविषये नैण्टि नैन् पर्सेण्ट् प्राक्टिस् अस्ति अभ्यासः तु अभ्यासः यद् अभ्यास, यद्यद् पठ्यते तस्य अभ्यासः आवश्यकः अभ्यास तियरि केवलं वन् सिद्धान्तः केवलं 1 अस्ति नैण्टि नैन् अत्र योगनिष्ठ जीवनम् इत्युक्ते अत्र यत् पठ्यते तस्य आचरणम् अस्माभिः करणीयं तर्हि इदानीं तत्र अस्माकं वर्गे किं किं पठ्यते अथवा किं की, इति चेत् आदौ परिचयः क्रियते योगस्य परिचयः योगः नाम योगविज्ञानस्य आरम्भः कथं जातः अनन्तरं योगः इत्यस्य शब्दस्य अर्थः कः योगः इत्यस्य लक्ष्यं किं योगस्य लक्ष्यं योगस्य प्रयोजनानि अनन्तरं योगनिष्ठजीवनम् इति वयं वदामः चेत् तत्र किं किम् अन्तर्भूतमस्ति तस्मिन् आहारः आसनानि साधना इत्यादयः तस्मिन् विषये अपि चर्चां वयं कुर्मः अनन्तरं यद् अत्र पठ्यते तस्य स्वजीवने यदा आचरणं भवति तस्य तेन किं परिवर्तनं जातम् अस्मा अस्माकं जीवने यतोहि अत्र योगः इति एकं यन्त्रमस्ति तस्मिन् वयं स्वं स्थापयामः चेत् तत्र कश्चन विलक्षणः अनुभवः जायते तादृश अनुभवस्य विषये अपि वयं वर्गे चर्चां कुर्मः तत्पश्चात् अस्माकं योगसम्बन्ध फिलासफिकल् करपत्राणि सन्ति तानि वयम् अग्रे गत्वा इति अस्माकं क्रमः अस्ति प्रथमं फस्ट् फ्यू वीक्स् फैव् टु वीक्स और आर् वीक्स वीक्स् केवलं व्यवहारिकरूपेण योगद्वारा योग, योग योगनिष्ठजीवनम् इत्यस्य अर्थः कः तत्र किं किम् अस्माभिः करणीयं तस्मिन् विषये वयं पश्यामः तत्पश्चात् योगसब् योगसम्बन्धकरपत्राणाम् अध्ययनं भविष्यति इति अस्माकं क्रमः अस्ति उपस्थापनक्रमः तर्हि इदानीं योगपरिचयः इति एकक्षणं तत्र तर्हि अत्र यदा वयं समुद्रस्य पार्श्वे गच्छामः अथवा पर्वतं विशालं पर्वतं वयं पश्यामः अथवा रात्रौ आकाशे नक्षत्राणि वयं पश्यामः तदानीं वयं तत्र अस्माकं मनसि तत्र आनन्दः जायते आश्चर्यचकिताः वयं भवामः स्तब्दाः भवामः एतद् दृष्ट्वा एतद् विशालं विशालं वस्तु वस्तु दृष्ट्वा वयं तत्र मुग्धाः भवामः वि फील् अमेस्ड् आर् त्रिल्ड् लुकिङ्ग् एट् बिग् तिङ्ग्स् तदर्थं वयं दीर्घयात्रामपि कुर्मः पर्वतं द्रष्टुं नदीं द्रष्टुं समुद्रं द्रष्टुं वयं दीर्घयात्रां कुर्मः सामान्यतया सर्वेषां मनुष्याणां अस्माकं शरीरे एकं कम्पं जायते कम्पं जायते इति सामान्यतया सर्वेषाम् अनुभवः अस्ति बालात् प्रौढपर्यन्तं सर्वेषां मनुष्याणाम् एवं कर्तुम् इच्छन्ति तर्हि इदानीम् अत्र प्रश्नः अस्ति किमर्थम् एवं कुर्वन्ति जनाः किमर्थमेवं कुर्वन्ति इति प्रश्नः अस्ति किमर्थम् एतादृशम् अनुभवं प्राप्तुं किम् अस्मान् प्रेरयति किमर्थं वयम् एवं कुर्मः किमर्थं वयं तत्र गच्छामः किमर्थं जनाः एतान् दृष्ट्वा रमन्ते तत्र कारणं किम् इति प्रश्नः अस्ति चिन्तनम् क्षम्यता हा किञ्चित् अहं वदामि तदनन्तरं वदतु महोदय चन्द्रमौलि महोदय किमस्ति भवतः चिन्तनं मम चिन्तनमस्ति वयं मुलतया ऐ मीन् मूलतया पञ्चभूतानि सन्ति अस्माकं शरीरे अपि अण्ड् तदेव क्षम्यता मम संस्कृतं सम्भाषणं सम्यक् नास्ति दट् युनिट् योगः भवति तत्रापि प्रकृति यदा वयं दृश्यामः चेत् अस्माकं मनसि अपि सेम् एलिमेण्ट्स् कनेक्षन् भवति अतः एव तत्र तादृशी भावः जातः इति मम चिन्तनमस्ति महोदय तर्हि अत्र वस्तुतः किमर्थं वयं स्तब्धाः इति चे अस्माकं सर्वेषाम् अन्तः अनंतस्य गभीरा तृष्णा वर्तते वि हेव् अ डीप् डिसैर् फार् द इन्फैनैट् एण्टिटि the infinite entity यस्य आदिः नास्ति अन्तः नास्ति तादृश अनन्तस्य विषये अस्माकं गभीरा इच्छा वर्तते वि हेव् अ डीप् डिसैर् एव्री ह्यूमन् बीङ्ग् हाव् हेव् दिस् डिसैयर् प्रत्येकं मानवस्य अन्तः अनन्ततां लिमिट्लेस्नेस् प्राप्तुम् इच्छा वर्तते वि वाण्टु अचीव् लिमिट्लेस्नेस् अनन्ततां प्राप्तुम् इच्छामः वयं तदवगच्छामः वा न वा वयं सर्वे सरोवरं वा समुद्रं वा वनं वा आकाशं वा द्रष्टुमिच्छामः एतादृशैः विशालैः विषयैः वयं मोहिताः भवामः तर्हि बृहत् वस्तूनां दर्शनेन यद्यपि क्षणिकरूपमेव क्षणिकरूपेण अस्माकम् अनन्तेषणा पूर्णा भवति अवर् डीप् डिसैर् फोर् द इन्फैनैट् एण्टिटि गेट् साटिस्फैड् बै लुकिङ्ग् अ डीस् बिग् थिङ्ग्स् एतादृशः अनुभवः लघुवस्तूनां दर्शनेन भवति बृहद्वस्तूनां दर्शनेन अस्माकम् अनन्तेषणा प्रेरिता भवति इट् गेट्स् ट्रिगर्ड् इति कृत्वा एव वयं पुनः पुनः प्राकृतिकप्रदेशं प्रति गच्छामः अनन्तसुखं कामना अथवा त्रिस्ना अस्माकम् अन्ते अस्ति इति कृत्वा सागरं पर्वतं सागरं पश्यामः अथवा पर्वतं पश्यामः अथवा रात्रौ आकाशे नक्षत्राणि वयं पश्यामः एतानि सर्वाणि दृष्ट्वा वयं विलक्षणः विलक्षणः अनुभवः अस्माभिः प्राप्यते अनन्तस्य आकाङ्क्षा बृहद्वस्तूनां दर्शनेन एव पूर्णा भवति अतः एव एतानि दृश्यानि सर्वाणि अस्माकं कृते आकर्षकाणि भवन्ति तान् दृष्ट्वा वयं सुखं प्राप्नुमः योगः इति तादृश अनुभवस्य संवर्धनार्थं प्रयतते योग ट्रैस् टु कल्टिवेट् दट् एक्स्पीरियन्स् इत्युक्ते एतान् अदृष्ट्वा अपि योगेन एतादृशः अनुभवः अस्माभिः प्राप्तुं शक्यते अनन्तरं तत्र ए, एता एतानि बहु बृहन्ति सन्ति इति कृत्वा द सैज़् अण्ड् म्याग्निट्यूड् अस्मान् प्रेरयति जनाः सामान्यतया वयं पश्यामः लोके जनाः पर्वतस्य चित्राणि कुर्वन्ति न तु तत्र लघुवस्तूनाम् इत्युक्ते आण्ड् हिल् अथवा अन्यत् किमपि लघु अस्ति तस्य विषये अधिकचिन्तनं नास्ति सामान्यतया वयं पश्यामः चित्राणि तु पर्वतस्य विषये समुद्रस्य विषये भवति कवयः अपि एवमेव बृहत् वस्तूनां विषये लिखन्ति पर्वतानां विषये अथवा नद्याः विषये इति एवं रीत्या लिखन्ति गायकाः अपि तेषां विषये एव गीतानि गायन्ति तर्हि जनेभ्यः बृहत् वस्तूनि रोचन्ते यतः किमपि अस्मान् प्रेरयति यत् पूर्वम् अस्माकम् अन्ते यत् पूर्वम् अस्माकम् अन्ते वर्तते वि हाव् दट् लिमिट्लेस्नेस् वित् इन् अतः एव वयम् एतान् दृष्ट्वा प्रेरिताः भवामः अस्माकम् अन्तः किमपि प्रेरितं भवति एतान् दृष्ट्वा पशवः यथा गावः अथवा शुनकः पर्वतं न पश्य पर्वतं पर्वतं दृष्ट्वा पर्वतान् इत्युक्ते स तत्र स्थित्वा तेन पश्यन्ति पर्वतं वा समुद्रं वा तत्र स्थित्वा तेन पश्यन्ति परन्तु मनुष्येषु किमपि तत् सुखम् उत्तेजयति संथिङ्ग् ट्रिगर्स् दट् हेपिनेस् वित् योगिनः किं इति चेत् एतत् सर्वं दृष्ट्वा अस्य परितः एकं विज्ञानं वर्धितवन्तः यत्र वयं सरोवरं वा सागरं वा द्रष्टुं बहिः गमनस्य अपेक्षा नास्ति केवलं नेत्रं नेत्रे निमील्य अस्माकम् अन्तः गच्छामः चेत् तादृशः तादृशम् अनुभवं प्राप्तुं शक्नुमः वस्तुतः तस्मादपि श्रेष्ठम् अनुभवं प्राप्तुं शक्नुमः योगद्वारा अस्माकम् अनन्तेषणा पूर्णा भवति तर्हि एतेषु समुद्रपर्वतादिषु किञ्चित् महत्त्वं वर्तते येन जनाः प्रेरिताः मुग्धाः भवन्ति कवयः सङ्गीतकाराः कवयः लिखन्ति एतेषां विषये सङ्गीतकाराः गीतं लिखन्ति तर्हि एतेषु किञ्चिदस्ति यद् अस्मान् प्रेरयति परन्तु तेषां विषये प्रेरणां प्राप्तुं नेत्रेण अस्माभिः ते द्रष्टव्याः वि हे टु गो देर् एण्ड् सी देम् पिपीलिकानां विषये चित्राणि न पश्यामः खलु अपि पर्वतानां विषये अथवा समुद्राणां विषये एव वा चित्राणि वयं पश्यामः तर्हि अस्मिन् विषये किमपि अस्ति तत्र किमपि कारणमस्ति केवलं कोइन्सिडेन्स् नास्ति जनेभ्यः बृहत् प्रोचन्ते रोचन्ते यतः तत् किमपि प्रेरयति अस्माकम् अन्तः मण्डूकः अथवा गावः तु पर्वतान् दृष्ट्वा विस्मिताः न भवन्ति विस्मिताः न तिष्ठन्ति मनुष्याः एव एवं कुर्वन्ति तर्हि तत्र किमपि कारणमस्ति येन एतादृशभावः प्रेरितः भवति एषा भावना गहनतया अर्थपूर्णा अस्ति एतत् सर्वं दृष्ट्वा योगिनः अस्य विषये विज्ञानं कृतवन्तः तर्हि एतावता यदुक्तं तदवगतं वा अत्र कः तत्र अनिमभगिनी वदति वा अत्र सारांशरूपेण अत्र किम् अस्ति इति आं भगिनि <laughs> अस्कंप यहां सर्वस्क बहु चिंता नरुतु तस्य बृहत्ति बहु चिंता रोचनमें तुभव किंचमत अस्क अनन्तस्य तृष्णा यत्र वर्तते त तत् तत्र एव अस्माकं बहु श्रद्धा भवति उदाहरणम् अस्ति सागरः वा पर्वतः वा एतादृशम् अनन्ताः ये सन्ति आकाशः तत्र अस्माकं किञ्चित् मनः बहु मनसि शान्तिः भवति अथवा यत् किम अस्ति तत्र चिंता अभी वर्म विस्म अत अनृष्णा ते कारण योग य चिंत चिंत मनसीद अतु मोग अस् इत्येव मम अवगमनं बहु सम्यक् भगिनी सम्यक्तया उक्तवती इत्युक्ते किमर्थं वयम् एतादृश बृहन्ती वस्तूनि किमर्थं वयं पश्यामः इति चेत् अस्माकं सर्वेषाम् अन्ते अनन्तस्य इच्छा वर्तते अनन्तस्य एषणा वर्तते वि हाव् द डिज़ैर् फार् दि इन्फैनैट् द इन्फैनैट् एण्टिटि विच् इस् अनादिः यस्य आदिः नास्ति अन्तः अपि नास्ति न अन्तः तादृश तादृश किमपि वयं प्राप्तुम् इच्छामः इति कृत्वा एव वयं विस्मिताः भवामः मोहिताः भवामः एतान् सर्वान् दृष्ट्वा तर्हि अत्र किमस्ति मूलविषयः इति चेत् अस्माकं सर्वेषां मनुष्याणां कृते अनन्तस्य तृष्णा वर्तते वयं जानीमः वा न जानीमः वा परन्तु सर्वेषां मनुष्याणाम् एतादृश एतादृशी तृष्णा वर्तते एव अस्तु तर्हि अत्र तदर्थमेव किमर्थं वयं स्तब्धाः भवामः इति चेत् बृहत् वस्तूनां दर्शनेन अस्माकं क्षणिकरूपेण अनन्तेषणा पूर्णा भवति न तु लघुवस्तूनां दर्शनेन एतादृशप्राकृतिकप्रदेशं वयं गच्छामः चेत् तत्र तत्र अनन्तेच्छा पू प्रेरिता भवति पूरिता भवति क्षणिकरूपेण निरन्तररूपेण नास्ति क्षणिकरूपेण यावत्पर्य पर्यन्तं वयं पश्यामः तावत्पर्यन्तं एतादृशः अनुभवः जायते अत्र एकं वक्तव्यम् अस्ति गत इत्युक्ते कश्चन प्रश्नः भवति इत्युक्ते प्र पशवः अपि प्रकृतिं दृष्ट्वा सन्तोषम् अनुभवन्ति खलु तर्हि किमर्थं केवलं मनुष्याणाम् एव एतादृशः विलक्षणः इति वदति इति प्रश्नः भवितुमर्हति यतोहि मयूराः तत्र नृत्यं कुर्वन्ति वर्षकाले ते नृत्यं कुर्वन्ति ते अपि सन्तुष्टाः भवन्ति तत्तु सत्यमेव पशवः अपि प्रकृतितः सन्तोषं प्राप्नुवन्ति न केवलमयूराः सर्वे पशवः एवं कुर्वन्ति यतोहि तेषाम् अपि नेचुरल् सरौण्डिङ्ग् अस्ति प्राकृतिकपरिसरः अस्ति यदि वयं कुक्कुरं समुद्रतीरे वयं नयामः चेत् कुक्कुरः अपि अत्यन्तम् उत्साहम् अनुभवति सन्तोषेण क्रीडितुम् आरभते धावितुं च आरभते परन्तु एतादृशस्य प्रकृतेः भोगस्य अनन्तस्य इच्छया सह कोऽपि सम्बन्धः नास्ति पशूनां कृते अनन्तस्य इच्छा न न वर्तते केवलं मनुष्याणां कृते एव एतादृशी इच्छा वर्तते ते तु सन्तोषं प्रकृतितः सन्तोषं प्राप्नुवन्ति तत्तु तेषां सहजवृत्ति अस्ति इन्बोर्न् इन्स्टिङ्ग्स् अस्ति समुद्रं वा पर्वतं वा दृष्ट्वा मनुष्याः एव विशालतायाः कारणेन द एक्स्पीरियन्स् ए थ्रिल्ड् डौन् देर् स्पैन् इति कृत्वा एव जनाः अपि कुर्वन्ति अतः अत्र मूलविषयः अस्ति अस्माकं सर्वेषाम् अन्ते अनन्तेच्छा अस्ति अनन्त इच्छायाः अनन्तेच्छायाः प्रेरणा भवति एतान् सर्वान् दृष्ट्वा अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः तर्हि एतत् सर्वं दृष्ट्वा एव योगिनः प्रायः फिफ्टीन् तौसण्ड् इयर्स् पञ्चसह पञ्चदशसहस्रेभ्यः वर्षेभ्यः पूर्वं योगिनः एतत् ज्ञातवन्तः एतादृशः एता विलक्षणः अनुभवः जायते इति ज्ञातवन्तः तत् कथं तत्र, कत, तत्र स्वस्मिन् एव तादृश अनुभवः कर्तुं शक्नुमः योगद्वारा साधनद्वारा मेडिटेशन् इति ज्ञात्वा ते एकं विज्ञानं विकसितवन्तः यस्य नाम अस्ति योगः इति प्राचीनकालात् एव जनाः एतदनुभवम् अवगन्तुं सम्ब संब, प्रयत्नं कृतवन्तः तर्हि कथं आकाशं वा समुद्रं वा पर्वतं वा अदृष्ट्वा अपि कथम् एतादृशः अनुभवः अनन्तेषा कथं वयम् अनन्तेषां कथं पूरयितुं शक्नुमः इति तदर्थम् एकं विचारं कृत्वा तदर्थं स्वजीवने आचरणं कृत्वा तदर्थम् अस्य विषये एकं विज्ञानं विकसितवन्तः एतद्विज्ञानमेव योगः इति प्रसिद्धिः वर्तते अत्र योगे तु अनन्तेषणायाः अनुभवं प्राप्तुं पर्वतं वा नदीं वा नदीं वा द्रष्टुं बहिः गमनस्य अपेक्षा न वर्तते केवलम् अस्माकं नेत्राणि नेत्रे निमील्य अन्तः गत्वा तस्मात् अपि उतः उत्तमः अनुभवः प्राप्तुं शक्यते अनन्तस्य अनुभवं प्राप्तुं शक्यते विलक्षणः अनुभवः प्राप्तुं शक्यते अयम् अनुभवः सामान्य अनुभवः नास्ति विलक्षण अनुभवः अस्ति तर्हि इदानीं योगः इति विज्ञानं विकसितम् इति उक्तं तर्हि योगः नाम कः इति प्रश्नः जायते योगः इत्यस्य को अर्थः तर्हि योगः नाम कः इति ज्ञातुं प्रथमतया मनुष्यः कः इति अस्माभिः अवगन्तव्यं तदानीं योगः किम् इति प्रश्नस्य उत्तरं प्राप्तुं शक्नुमः तर्हि अत्र मनुष्यः कः इति अवगमनार्थम् इत्युक्ते अहं कः मनुष्यः पशुः वा केवलं मनुष्यः अपि च पशुः अनयोः मध्ये भेदः अस्ति वा मानवस्य च अन्यजीवानां मध्ये भेदः कः इति अवगन्तव्यं भवति मनुष्यः केवलं पशुषु बुद्धिमान् वा तावानेव भेदः अस्ति वा मनुष्यः इति वक्तुं किम् अपेक्षितमस्ति वाट् इस् द लक्षण आफ् अ ह्यूमन् बीङ्ग् मनुष्यः इति वक्तुं किम् अपेक्षितमस्ति किं वयं केवलं पशवः एव स्मः पशुराज्ये वयं स्मः वा केवलं पशुषु इतोपि अधिकः अधिकः बुद्धिमान् बुद्धिमन्तः एव वयं स्मः वा विविधपशूनां मध्ये बुद्धिमन्तः स्मः वा अथवा वयं पशुभ्यः इतोपि क्वालिटेटिव्ली वि आर् डिफ़्रेण्ट् गुणात्मकरूपेण वयं भिन्नाः स्मः वा इति अत्र प्रश्नः अस्ति तर्हि एतेषां प्रश्नानां समाधानम् अपि योगसम्बन्धितं वर्तते अस्य मनुष्यः कः इति प्रश्नस्य उत्तरे एव मनुष्यत्वस्य बीजं वर्तते तर्हि इदानीम् अग्रे गच्छामः तत्र मनुष्यः कः वस्तुतः मनुष्यः कः इति महान् प्रश्नः अस्ति अस्मिन् विषये जीवनस्य सर्वेभ्यः क्षेत्रेभ्यः जनाः चिन्तितवन्तः तत्र विचारं कृत्वा स्वस्य मतमपि दत्तवन्तः यथा दार्शनिकाः फिलासफर्स् सैन्टिस् वैज्ञानिकाः बहुकालात् अनादिकालात् एव स्वमतं दत्तवन्तः तेषु केचन उक्तवन्तः यत् मानवः बुद्धिमान् पशु ह्युमेन् बीङ्ग्स् आर् इण्टेलिजेण्ट् एनिमल्स् इति ते उक्तवन्तः परन्तु योगदृष्ट्या एतादृश उत्तरम् अज्ञानवशात् एव यतोहि बुद्धिमान् इति ते केवलं बुद्धिमान् एव वयं वदामः चेत् तत्र ओन्ली डिफ़्रेन्स् इन् दलिटेटिव् डिफ़्रेन्स् क्वाण्टिटेटिव् डिफ़्रेन्स् इत्युक्ते पशवः पशुषु अपि बुद्धिः वर्तते मनुष्येषु अपि बुद्धिः वर्तते इत्युक्ते तस्य अपेक्षया पशु पशूनाम् अपेक्षया किञ्चित् अधिकः अधिकम् अधिका बुद्धिः वर्तते इति वयं वदामः चेत् तावान् एव भेदः समीचीनं वा समीची एवं चेत् केवलं बुद्धिभेदः एव वर्तते चेत् तर्हि किमर्तम मनुष्याः पशुराज्ये न सन्ति वै अपि नाट् इन् एनिमल् किङ्ग्डम् यदि केवलं बुद्धिभेदः एव वर्तते चेत् तदर्थं तत्र योगिनां मते अत्र योगिना वस्तुतः योगिनां योगिनाम् योगिनाम उत्तरं किम् इति चेत् अत्र पशुमनुष्ययोः मध्ये न केवलं क्वाण्टिटेटिव् डिफ़रेन्स् मात्रायाः भेदः नास्ति तयोः मध्ये गुणात्मकभेदः अपि अस्ति दे हेव् अ क्वालिटेटिव् डिफ़रेन्स् योगिनां मते योगिनः यद् उत्तरं दत्तवन्तः तत्तु बहु विलक्षणः अस्ति युनीक् युनीक् एक्स्प्लेनेषन् बहु सन्तोषजनकम् अपि अस्ति ते किम् उक्तवन्तः इति चेत् मनुष्याणामेव अनन्तेषणा वर्तते ते आकाशं वा समुद्रं वा पर्वतं वा विशालं वस्तु यदस्ति तद् तेषाम् एव तत्र दे ओन्लि एक्स्पीरियन्स् दि चिल्नेस् इन् देस् पैन् ते एव तादृशविलक्षणः अनुभवं विलक्षणमनुभवं प्राप्नुवन्ति अयम् अनुभवः अनुभवः एव बीजः अस्ति मनुष्यत्वस्य एक्स्पीरियन्स् आफ़् सीङ्ग् सम्थिङ्ग् बिग् अपि अन्यदपि वक्तव्यं समुद्रः पर्वतः ए एते सर्वे अपि बृ एतानि सर्वाणि अपि बृहन्ति सन्ति परन्तु ते अनन्तानि न सन्ति अनन्तः इव भासते दे अपियर् टु बि इन्फ़िनैट् परन्तु एतानि अनन्तानि न सन्ति तेषाम् आदिः अस्ति अन्तः अपि अस्ति आकाशः वा भवतु पर्वतः वा समुद्रं वा भवतु एतेषां सर्वेषाम् आदिः अपि अस्ति अन्तः अपि अस्ति अतः ते एतानि अनन्तानि न सन्ति परन्तु एतानि एता एते सर्वे अपि विशालाः सन्ति इति कृत्वा वयम् अनन्तः इव अस्माकम् अनुभवः भवति विशालाः सन्ति इति कृत्वा परन्तु एतानि अनन्तानि न सन्ति अत्र अत्र विषयः कः इति चेत् योगिनः किम् मनुष्यपशयोः मध्ये पशोः मध्ये गुणात्मकः भेदः वर्तते आकाशः समुद्रम् एतादृशं वयं दृष्ट्वा विलक्षणः अनुभवः केवलं मनुष्याणामेव भवति किमर्थं भवति इति चेत् मनुष्याणाम् अनन्तेषणा वर्तते अनन्तस्य कृते इच्छा वर्तते वि हेव् एन् इन्फैनैट् डिसैयर् इन्फैनैट् प्राप्तुम् अस्माकम् इच्छा वर्तते इति योगिनः उक्तवन्तः विलक्षणः उत्तरं विलक्षणम् उत्तरं ते उक्तवन्तः मनुष्यः कः इति चेत् तदर्थं मनुष्यत्वस्य बीजः अयम् अनुभवः अस्ति एतादृशविशालविशाल वस्तु दृष्ट्वा यः अनुभवः प्राप्यते सः एव मनुष्यत्वस्य बीजः इति योगिनां मतम् अस्ति अस्तु तर्हि इदानीं अत्र uh, एतावता यदुक्तं तस्य uh, सारांश तस्य uh, तस्य विषये विवरणं कः करोति अत्र uh, उषा भगिनी करोति वा प्रयत्नं करोमि भगिनि अस्माकं कृते अनन्तस्य वीक्षणा अस्ति यस्य कृते आदिः अपि नास्ति अपि नास्ति तदेव अन्तः अपि नास्ति अन्तः अपि अपि नास्ति अन्तः अपि नास्ति तदेव अनन् तत् अनन्त अनन्तस्य तत् प्राप्तुम् इच्छा एव अस्माकं मूलबीजम् अस्ति तत् विशालं वस्तूनां वस्तूनि दृष्ट्वा यत् yatta uh, ye feeling anubhav apa satta attam angre bhasha uh, mein aapke niche the vadatu angre bhasha mein aapke niche the vadatu uh, angre bhasha oh, mein aapke aur ke shabd okay oh, okay whatever we whenever we see the mountains and all these uh, and oceans then we feel such a great happiness by that feeling It, even though it lasts only for a second we feel that and uh, that, uh, that's the kind of feeling that uh, yoga yoga yogika yogis say that you can get it even by even even by not going, not seeing the samudrana seeing that all that even all that without seeing all that you can have that feeling of that uh, uh, that uh, that feeling in in you uh, by these you by this yogic life by th this yogic life how did they find that out they said that they have started it about fifteen thousand years ago and uh, also um, that but uh, can you but adhi api nasti and amma api nasti that uh, that, uh, that is is it not like that brahman that we are uh, seeking yes. यस् यस् अग्रे गत्वा तस्य विषये वयं पश्यामः इदानीं इन्फैनैट् एण्टिटि इति वयं स्वीकुर्मः अनन्तरम् इन्फैनैट् एण्टिटि का इति प्रश्ने सति तदानीं ब्रह्मणः विषये चिन्तनं भवति ओके कुतः इन्फैनैट् एण्टिटि इत्युक्ते ब्रह्म एव परन्तु अत्र इदानीम् आदौ वयं इन्फैनैट् एण्टिटि इति वयं वदामः अनन्तसत्ता इति वदामः अग्रे गत्वा वयं पश्यामः गेट् दीलिङ्ग् yes the animals also feel it because we can see the peacocks dancing and uh, the and uh, they also when they do see, they get the same feeling animals get the same feeling not the same amount of feeling but then they also feel, they look at the clouds or the thing and then they enjoy that but then, so what is the tiyo bhedaha ka but then they don't have and uh, that it's, it's not by because of that ananta that anantasya uh, ikshana that uh, mm. is not in that same level m mm. kesham uh, vishetesham kritetu ananteshana nasti kesham krite ah uh, ananteshana nasti because of their inherent instincts they are enjoying the nature it is not But can i say they are programmed in that ah uh, yes they are programmed like that yes kesham well, i am yeah yeah mm. i am supposed to get that infinite thing i am supposed to find that in, inside me and for mm. this the yogic uh, the yogis have just made a point of view and uh, for that then uh, first uh, what is the difference between me and an animal and if they if to think about that then uh, i'm uh, if the human being just uh, extension of uh, an animal with more buddhi more Uh, more thinking is it is it is is that the quest, biggest question then uh, um some uh, some ashthikas measured that it is we are an extension of an animal but the yogi uh, the yogis say no we are not we are uh, geared towards finding that infinity in us that infinite that ananta space um यस् बहु सम्यक् भगिनी सम समीचीनं समीचीनम् इत्युक्ते तत्र मूल्यविषयः अस्माकं सर्वेषां मनुष्याणाम् अनन्तेषणा वर्तते तादृशी एषणा पशूनां नास्ति यद्यपि ते अपि प्रकृतितः सन्तोषं प्राप्नुवन्ति तथापि मनुष्याणाम् अपि च पशूनां भेदः कः इति चेत् मनुष्याणाम् अनन्तेषणा अस्ति वी हाव् द डिसैर् फार् द इन्फैनैट् एण्टिटि एव्री एव्री ह्यूमन् बीङ्ग् वाण्ट्स् टु अचीव् द इन्फैनैट् अनन्त अनन्तरसत्तां प्राप्तुम् इच्छामः पशूनां कृते तादृशी एषणा नास्ति तर्हि योगः इति विज्ञानं विकसितं एतत् सर्वं दृष्ट्वा योगिनः योगविज्ञानं विकसितवन्तः इदानीं प्रश्नः अस्ति योगः नाम कः इति तर्हि तदर्थं मनुष्यः कः इति अस्माभिः मनुष्यः केवलं पशुः वा इति प्रश्ने केवलं पशुषु बुद्धिमान् इति तावानेव भेदः वा इति प्रश्ने अस्य अस्य प्रश्नस्य उत्तरे एव मनुष्यत्वस्य बीजं वर्तते तर्हि वयं उक्तवन्तः मनुष्यः बुद्धिमान् पशु इति चेत् तत्र अस्मिन् विषये बहवः चिन्तितवन्तः केचन उक्तवन्तः मानवः बुद्धिमान् पशु इति परन्तु एतादृशम् उत्तरं सम्यक् नास्ति अज्ञानवशात् एव यतोहि पशुमनुष्ययोः मध्ये केवलं क्वाण्टिटेटिव् डिफ़्रेन्स् नास्ति मात्रायाः भेदः नास्ति मनुष्यः केवलम् इतोपि बुद्धिमान. इति तावानेव वेदः नास्ति तयोः मेदे त्वयोः मध्ये गुणात्मकभेदः वर्तते देर् इस् अ क्वालिटेटिव् डिफ़्रेन्स् बिट्वीन् ह्युमेन्स् एण्ड् एनिमल्स् इति अत्र योगिनाम् उत्तरम् अस्ति तर्हि ते किम् आकाशपर्वतसमुद्राणां दर्शनेन यः अनुभवः प्राप्यते तत्र अस्माकम् अन्ते यद् लिमिट्नेस् नेस् तद् ट्रिगर् भवति एतान् सर्वान् दृष्ट्वा इति अयमनुभवः अनुभवः एव मनुष्यत्वस्य बीज अस्ति मनुष्यत्वस्य बीजः अस्ति अयम् अनुभवः एव इति तेषां योगिनाम् उत्तरमस्ति तर्हि इतः अग्रे अत्र यथा पूर्वम् उक्तं पशवः अपि सुखमिच्छन्ति सर्वे जीविनः सर्वे जीवाः सुखम् इच्छन्ति सर्वे सुखम् इच्छन्ति परन्तु मनुष्याः अपि सुखम् इच्छन्ति खलु मनुष्याः अपि सुखमिच्छन्ति मनुष्याः अनन्तं सुखं प्राप्तुमिच्छन्ति अनन्तं सुखम् इन्फैनैट् सुखं प्राप्तुम् इच्छन्ति तत्र पशवः सुखं प्राप्तुमिच्छन्ति सर्वे पशवः सर्वे जीवाः सुखं प्राप्तुमिच्छन्ति मनुष्याः अनन्तं सुखं प्राप्तुमिच्छन्ति वि वाण्ट् इन्फैनैट् हेपिनस् एनिथिङ्ग् विट् वि वाण्ट् एव्रिथिङ्ग् इन्फैनैट् तर्हि इदानीं सर्वेषां प्राणिनां मध्ये बुद्धिभेदः वर्तते सर्वेषां प्राणिनां मध्ये बुद्धिभेदः वर्तते सर्वेषां मनः अपि वर्तते सर्वेषां मनः अपि वर्तते परन्तु मनसः विकासे भेदः अस्ति मनसः विकासे भेदः अस्ति मनुष्येषु यः यः यत् वर्तते यत् मनः वर्तते तदितोपि विक विकसितं वर्तते अन्येषां जीवानाम् अपेक्षया अतः भिन्नप्राणिनां सुखे भेदः वर्तते सर्वे प्राणिनः सुखम् इच्छन्ति सस्यानि वा भवतु सिङ्गल् सेल्ड् आर्गनिज़म्स् वा भवतु कीटाः इन्सेक्ट्स् वा भवतु वानराः वा भवतु सिंहाः वा भवतु मनुष्याः वा भवतु सर्वे सुखस्य अन्वेषणं कुर्वन्ति एव्रिबडि वाण्ट्स् एव्रिबडि सीक्स् हेपिनस् परन्तु सुखं भिन्नं भिन्नं भवति प्रत्येकं जीवस्य कृते न? सर्वे सुखं सर्वे स्वजीवने सुखस्य अन्वेषणं कुर्वन्ति परन्तु सुखस्य मानं स्वरूपं भिन्नं भवति तर्हि इदानीं सुखस्य स्वरूपं कथम् अस्ति सर्वेषां जीवानां मनः वर्तते सूक्ष्मजीवानामपि मनः वर्तते परन्तु तेषां विकसितं मनः मनः नास्ति तर्हि सुखस्य स्वरूपं भिन्नजीवानां कथम् अस्ति इति चेत् एक एककोशस्थ कोशस्थानां जीवानां कृते सिङ्गल् सेल्ड् आर्गानिज़म्स् तेषां कृते सुखं किं भवति इति चेत् पर्याप्तं जलं एलेक्ट्रोलैट्स् स्थिरसन्तुलनं वातावरणम् एतत् सर्वं भवति इदानीं सस्यानां कृते वनस्पतीनां कृते तत्र सुखं किं भवति इति चेत् जलम् उत्तमवातावरणं मृत्तिका एतत् सर्वं तत्र सस्यानां कृते सुखम् एतैः सुखं प्राप्यते सस्यानि प्राप्यन्ते तर्हि इदानीं पशूनां कृते किं भवति इति चेत् तत्र पशूनां कृते आहारः निद्रा भयं मैथुनम् पशूनां कृते यथा वानरादिपशूनां कृते पर्याप्तं भोजनं निद्रा सुरक्षितं वातावरणं मैथुनं च सुखं ददाति मैथुनम् इत्युक्ते प्रजननं प्रोक्रियेशन् ए एतत् सर्वं सुखं ददाति तर्हि वयं पश्यामः चेत् सर्वे अपि सुखस्य अन्वेषणं कुर्वन्ति एककोश एककोशस्य जीवः भवतु सस्यानि वा भवन्तु पशवः भवन्तु सर्वे सुखस्य अन्वेषणं कुर्वन्ति परन्तु तत्र पशवः स्वजु जीवने सुखस्य अन्वेषणार्थम् अधिकसक्रियाः भवन्ति दे हेव् दे डु एन् आक्टिव् सर्च् फार् गेटिङ्ग् हेपिनेस् इन् टर्म्स् आफ़् आहारनिद्रा भयं मै मैतनं पशु पशूनां सुखस्य सुखस्य सीमा वर्तते तेषां सुखस्य अन्वेषणे तेषाम् इच्छाः सीमिताः सन्ति दे हेव् फैनैट् डिज़ैर्स् एनिमल्स् ह् फैनैट् डिसैर्स् पशवः एकदा एक तेषां भोजनस्य जलस्य वा आवश्यकता पूरिता भवति तदानीं ते किं कुर्वन्ति सुरक्षित, सुरक्षितं सुरक्षितं वातावरणमपि अस्ति चेत् ते तदानीं ते निद्रामेव कुर्वन्ति अधिकम् अन्यत् किमपि न अपेक्षितं तेषां कृते आहारः भोजनं प्राप्तं भयं नास्ति सुरक्षितं वातावरणम् अस्ति तर्हि ते सामान्यतया निद्रां कुर्वन्ति अन्यत् किमपि तेषां इच्छा नास्ति अन्यत् अन्या कामना नास्ति परन्तु मनुष्याणाम् इच्छायाः अन्तः नास्ति मनुष्यानाम् इच्छायाः अन्तः नास्ति एकं वस्तु प्राप्यते चेत् तर्हि अन्यस्य आकाङ्क्षा वर्तते इति एवं रीत्या तत्र अन्यजीवानाम् अपेक्षया मनुष्याणाम् इच्छायाः भेदः वर्तते मनुष्याणाम् इच्छायाः अन्तः एव नास्ति किमर्थमेवमस्ति इति चेत् अस्माकम् अनन्तेषणा वर्तते इति कृत्वा एकं वस्तु प्राप्यते चेत् पुनः अन्यत् अन्यत् अपेक्षितं पुनः अन्यत् पुनः अन्यत् इति एवं रीत्या सर्वदा आकाङ्क्षा वर्तते एव सुखे भिन्नजीवानां मध्ये सुखे भेदाः सन्ति किन्तु सर्वे जीवाः सुखस्य अन्वेषणं कुर्वन्ति इति तु सामान्यम् अस्ति सर्वे कुर्वन्ति परन्तु द क्रैटेरिया फार् हेपिनेस् सुखस्य निकषाः भिन्नाः भवन्ति प्रत्येकं जीवस्य कृते इति अत्र सुखस्य स्वरूपं भिन्नजीवानां कृते कथमस्ति इति वयं चर्चितवन्तः अस्तु इदानीं तत्र मानवस्य मनुष्याणाम् अनन्तेषणा वर्तते इति उक्तं तर्हि अन्येषाम् अपेक्षया मानवस्य इच्छाः अन्येषां यादृशी इच्छा वर्तते तादृशी अत्र मनुष्याणां नास्ति इत्युक्ते मनुष्याणाम् अनन्तेषणा वर्तते मनुष्याणां कृते मूलभूतकामनानां पूर्ते अपि तत्र नेससिटीस् फ़ार् सर्वैवल् तानि पूर्यन्ते चेद् अपि तानि पूर्यन्ते चेदपि Uh, जीवनस्य आवश्यकताः पूर्यन्ते चेदपि मानवाः शान्ताः न भवन्ति तेषां तृप्तिः न भवति ते इतोपि अग्रे किञ्चित् चिन्तयन्ति योजनां कुर्वन्ति तत्र इच्छाः व्यक्तेः आधारेण भिन्नान् आकारान् गृह्णन्ति द डिज़ैर्स् टेक् डिफ़्रेण्ट् शेप् अकार्डिङ्ग् टु इच् इण्डिविजुवल् टेस्ट् परन्तु तेषां योजनाः सन्ति मूलभूतानां विषयाणां Uh, प्राप्त्यनन्तरं जीवनस्य जीवनस्य कृते आहारः uh, सुरक्षितवातावरणम् एतत् सर्वं प्राप् प्राप्तं चेदपि ते इतोपि अधिकम् इच्छन्ति किमर्थमेवम् इति चेत् मनुष्याणाम् अनन्तेषणा वर्तते यदि वयं uh, एकः व्यापारी अस्ति स्वव्यापारस्य सर्वदा विस्तारं कर्तुम् इच्छति इ वा एक्स्पाण्डेस् बिस्नेस् यत्किमपि प्राप्यते चेदपि इतोपि अधिकम् इच्छति इतो इतोपि वर्धनम् इच्छति लेखकः अस्ति चेत् सः इतोपि अधिकं सुन्दरं लेखितुम् इच्छति प्राध्यापकः अस्ति चेत् स्वस्य रिसर्च् वर्क् इत्यस्य चिन्तनं सर्वदा करोति तेन कथं सः प्रसिद्धिं प्राप्तुं शक्नोति इति तस्मिन् विषये चिन्तयति पालिटिषियन् राजनेतारः सन्ति चेत् ते अपि इतोपि अधिकं पदवीं प्राप्तुम् इच्छन्ति पदवीं वर्धयितुम् इच्छन्ति ते गवर्नर् अस् ते गवर्नर् सन्ति तत्र ते तत्र प्रधानमन्त्री अथवा राष्ट्रपति राष्ट्रपतिः भवितुम् भा, इच्छति ते सर्वदा चिन्तयन्ति अहम अग्रे किं कर्तुम् इच्छामि अहं किं कर्तुं शक्नोमि इति तर्हि किमर्थम् एवम् अस्ति इति चेत् मानवस्य कामनायाः अन्तः नास्ति कामनायाः सीमा नास्ति एव अस्तु तर्हि इदानीं तत्र का तत्र विजयाभग्नि वदति वा आम् अत्र मानवाः मानवः अनन्तरम् अत्र पशु पशवः एतत् विषये किञ्चित् अचलत् मानवाः विषये अत्र गोचराणि ना सन्ति एतत् प्राप्तुम् इच्छन्ति चेत् प्राप्य एतत् प्राप्तुम् अनन्तरमपि इच्छा वर्धते एव अत्र किमपि अत्र मनसि सन्तुष्टः न भवन्ति एव सन्तुष्टाः न भवन्ति एव परन्तु पशवः विषये अत्र गोचराः सन्ति एव भवती एदा उक्तं तादृशमेव सीमा भवन्ति अत्र किमपि अत्र प्राप्तुं न शक्यते एव गोचरा यत्र अस्ति तत् गोचरस्य विषये एव प्राप्तुं शक्यते परन्तु मनुष्येषु तादृशं नास्ति बहवः अत्र अन्वेषणं कुर् कुर्वन्ति एव अनन्तरम् अत्र सस्यानि विषये एककोशस्थाः जीवाः कीटाः वानरः इति स्वीकुर्मः चेत् अत्र वनरः अपि किञ्चित् एव गन्तुं शक्यते परन्तु मानवस्य विषये तादृशं नास्ति इच्छा बहवः सन्ति सन्तुष्टः न अपि किमपि वस्तुनि न सन्तुष्टाः भवन्ति एव खलु महोदय हा समीचीनं समीचीनम् तत्र सर्वे प्राणिनः सुखम् इच्छन्ति परन्तु अन्येषाम् अपेक्षया मनुष्याणां सुखस्य भेदः कः इति चेत् मनुष्या मनुष्याणाम् इच्छायाः अन्तः नास्ति यत्किमपि इत प्राप्यते इतोपि अधिकम् अपेक्षितं अस्ति तेषाम् अनन्तेषणा वर्तते अन्येषां जीवानां कृते तथा नास्ति ते, ते। किमपि प्रा तत्र यद् आवश्यकं चेत् ते सन्तुष्टाः भवन्ति पशूनां कृते तत्र आहारः निद्रा भयं मैथनम् एतत् सर्वं भवति चेत् तदानीं ते, ते सन्तुष्टाः भवन्ति इति तत्र भेदः अस्ति मनुष्याणाम् अनन्तेषणा वर्तते इति मूलविषयः अस्ति अस्तु इतोपि तत्र अपि उक्तं तत्र मनुष्याणाम् अनन्तेषणा वा अस्ति इति कृत्वा एव तत्र उदाहरणरूपेण अपि उक्तं व्यापारी अस्ति चेत् स्वस्य यदि तत्र मौलिकभूतानां विषयानां प्राप्त्यनन्तरम् अपि भोजनं सर्वं जातं तदानीमपि व्यापारवर्धनार्थम् इतोपि योजनां करोति चिन्तनं करोति लेखकः अपि एवमेव करोति तत्र इतोपि सम्यक् रचनां कथं कर्तुं शक्नोमि इति सः प्रयत्नं करोति वैज्ञानिकाः नूतन आविष्कारार्थं प्रयतन्ते मन्त्री अस्ति चेत् से सः अपि इतोपि अधिकस्थानम् अधिकपदवीं इच्छन्ति इति एवं रीत्या वयं पश्यामः चेत् यस्मिन् कस्मिन्नपि क्षेत्रे भवतु नाम मनुष्यः सर्वदा इतोपि अधिकं इच्छति त सर्वदा योजनां करोति hmm? तर्हि इदानीं पशुमनुष्ययोः मध्ये गुणात्मकभेदः अस्ति इति उक्तं मानवस्य uh, मन, पशुमनुष्ययोः मध्ये न केवलं मात्रात्मकभेदः दिर्स् नाट् ओन्ली अ क्वाण्टिटेटिव् डिफ्रेन्स् वि के नाट् जस्ट् से ह्यूमन् बीङ्ग्स् आर् जस्ट् इण्टेलिजेण्ट् एनिमल्स् देर् इस् संथिङ्ग् मोर् देरिस् अ क्वालिटेटेटिव् डिफ्रेन्स् मानवस्य कामनायाः अन्तः एव नास्ति मनुष्यस्य इच्छानाम् अन्तः नास्ति पशूनां कामनाः शारीरिकस्तरे एव सीमिताः भवन्ति देर् डिसैर्स् अर् लिमिटेड् टु देर् फिसिकल् एक्सिस्टेन्स् अस्य भेदस्य कारणात् मनुष्याः पशवः न सन्ति अतः एव वयं पशुराज्ये न स्मः मनुष्याः गुणात्मकरूपेण भिन्नाः सन्ति भिन्नेषु जीवेषु अथवा सर्वेषु जीवेषु मनस मनसः विकासस्य प्रमाणं भिन्नं भवति अन्येषां जीवानां कृते सुखस्य मानं भौतिकं भौतिकमस्ति किन्तु मनुष्याणां सुखाय एतत् सर्वं पर्याप्तं नास्ति भोजनं प्राप्तं चेदपि इतोपि अधिकं किमपि अपेक्षितमस्ति कियदपि तेषां कृते अस्ति ते इतोपि अधिकम् इच्छन्ति सङ्गीतका सङ्गी ये सङ्गीतकाराः सन्ति ते इतोपि यत्नं कुर्वन्ति प्रसिद्धिं प्राप्तुं सर्वदा अधिकमिच्छन्ति व्यापारी कियदपि धनं भवतु नाम सः अधिकमिच्छति एवमेव राजनेतारः अधिकशक्तिम् इच्छन्ति यस्मिन् कस्मिन्नपि अस्माकम् आसक्तिः अस्ति तस्मात् अधिकं वयम् इच्छामः तर्हि मनुष्याणाम् इच्छायाः कोऽपि अन्तः एव नास्ति किन्तु अन्येषु जीवेषु तथा नास्ति अन्येषु जीवेषु फिसिकल् एक्सिस्टेन्स् कृते यद आवश्यकं तत प्राप्तं चेत् ते सन्तुष्टाः भवन्ति परन्तु वयं तु फिसिकल् एक्सिस्टेन्स् कृते यद् आवश्यकं तत् प्राप्यते चेदपि इतोपि योजनां वयं कुर्मः वयं सन्तुष्टाः न भवामः इतोपि चिन्तना इतोपि योजनां कुर्मः चिन्तनं कुर्मः इति एवं वयं कुर्मः इति कृत्वा वयं द्रष्टुं शक्नुमः यत् पशुमनुष्ययोः मध्ये न केवलम् मात्रात्मकभेदः नाट् जस्ट् क्वालिटेटिव् क्वाण्टिटेटिव् डिफ़्रेन्स् केवलं वयं पशूनाम् अपेक्षया इतोपि बुद्धिमान, इति एव वयं वक्तुं न शक्नुमः अस्माकं पशु पशुमनुष्ययोः मध्ये गुणात्मकरूपेण भेदः वर्तते सः गुणात्मकभेदः कः कः भेदः अस्ति हौ डु बि डिस्टिङ्ग्विश् ह्यूमेन्स् so, फ्रम् एनिमल्स् पशुमनुष्ययोः गुणात्मकभेदः कः इति चेत् तत्र मनुष्येषु अनन्तेषणा वर्तते तादृशी पशुषु न वर्तते मनुष्याः एव आकाशपर्वतसमुद्राणां दर्शनेन स्तब्धाः भवन्ति न तु पशवः एतादृश अनुभवेन एव मनुष्याः विशेषाः भवन्ति एतादृश अनुभवः एव बीजः भवति योगस्य अवगमनार्थं मनुष्याः अपि जीवन्ति सर्वे अन्यानि भूतानि अपि जीवन्ति भिन्नराज्येषु ये जीवाः तेषां विषये किञ्चित् तत्र भेदः अस्ति तेषां सुखार्थं क्रैटीरिया किम् अस्ति मानवः कथं सुखं प्राप्नोति अन्ये जीवाः कथं सुखं प्राप्नुवन्ति सर्वेषां प्राणिनां मनः वर्तते न केवलमनुष्याणां पशुषु अपि मनः वर्तते सर्वेषु प्राणिषु मनः वर्तते सर्वस्य मनः वर्तते अस्मिन् मानसः विषये अग्रे वयं पश्यामः कथं सर्वेषु मनः वर्तते इति अग्रे वयं चर्चां कुर्मः परन्तु प पशु म मन, मनुष्ययोः गुणात्मकः भेदः कः इति चेत् मनुष्येषु अनन्तेषणा वर्तते अस्तु तर्हि एतावता यदुक्तं तस्य विषये अत्र कः दीप्ति भगिनी वक्तुमिच्छति वा किञ्चित् वदामि भगिनि प्रथमं बृहत् बृहतां ब्रह, वस्तूनां दर्शनेन केवलं मनुष्याणामेव प्रेरणा भवति न तु पश पशूनाम् इत्यस्य विषये उक्तं तत्र मनुष्येषु अनन्तेष न वर्तते अतः बृहतां वस्तूनां दर्शनेन मनुष्याः प्रेर प्रेरिताः भवन्ति न तु पशवः पशवः तु स्वाभाविकतया बृहत् वस्तूनां मध्ये तिष्ठन्ति परन्तु तेषां विशेषप्रेरणा न भवति इति प्रथमः विषयः द्वितीयः विषयः अस्ति मनुष्याणां मनुष्याः केवलं पशुषु अधिकबुद्धिमन्तः वा इति प्रश्नः तस्य उत्तरमस्ति तथा न मनुष्याः न केवलं बुद्धिमन्तः अपि गुणात्मकः भेदाः अपि वर्तन्ते मनुष्येषु इति द्वितीयः विषयः अन्यः विषयः अस्ति किमर्थं कथं मनुष्याः भिन्नाः इति यतः वृक्षाणां पशूनाम् इत्यादीनां इच्छाः सीमाः इच्छानां सीमा अस्ति परन्तु मनुष्याणाम् इच्छाना सीमा नास्ति वृक्षाणां कृते पर्याप्तं जलं प्रभूतं प्रकाशः सूर्यप्रकाशः अस्ति चेत् पर्याप्तं परन्तु मनुष्याणां कृते एका इच्छा समाप्ता भवति चेत् झटिति अन्य इच्छा वर्तते यतः ते ए, तेषाम् यतः मनुष्यान् मनुष्येषु अनन्तेषा वर्तते पुनः तदेव अपि च अन्ते वयं कथं कथं मनुष्याः गुणात्मकरीत्या भिन्नाः पशु पशूनाम् अपेक्षा इति अपि चर्चां कृतवन्तः बहु सम्यक् भगिनि सम्यक् समीचीनम् अस्तु तर्हि तर्हि इदानीं वयं किञ्चित् अग्रे गच्छामः तर्हि मनुष्यपशोः मध्ये गुणात्मकरूपेण भेदः वर्तते इति अस्माभिः ज्ञातम् इदानीं पशुः अपि च सस्यं पशु पशुवनस्पतीनां मध्ये भेदः कः किं पशुः केवलं चलत् सस्यम् आर uh, एनिमल्स् जस्ट मूविङ्ग् प्लाण्ट्स् इति वक्तुं शक्यते अनयोहो वयं पश्यामः चेत् अनयोहो अपि न केवलं मात्रात्मकभेदः परन्तु अनयोः मध्ये अपि गुणात्मकभेदः वर्तते बिट्वीन् प्लाण्ट्स् एण्ड् एनिमल्स् आल्सो देर् इस् अ क्वालिटेटिव् डिफ़्रेन्स् न केवलं क्वाण्टिटेटिव् डिफ़्रेन्स् इत्युक्ते तत्र पशूनाम् इतोपि अधिका बुद्धिः अस्ति सस्यानाम् अपेक्षया इति तावदेव वक्तुं न शक्नुमः अनयोः अपि भेदः न केवलं मात्रात्मकः भेदः यता मनुष्यपशोः मध्ये गुणात्मकः भेदः तथैव सस्यपशोः मध्ये अपि गुणात्मकः भेदः वर्तते पशुः अपि जीवः हा, जीवः अस्ति सस्यमपि जीवः अस्ति तर्हि अत्र प्रश्नः अस्ति किं पशुः केवलं चलत् सस्यं वा मूविङ्ग् प्लाण्ट् अस्ति वा तत्र पशुषु वयं पश्यामः चेत् मूषकात् अधिकः विकसितः अस्ति वानरः वानरस्य बुद्धिः अधिका वर्तते पशुराज्ये अपि बुद्धिस्तराः सन्ति प्रत्येकं तत्र यता तत्र मङ्कीस् आर् मोर् इण्टेलिजेण्ट् देन् देन् द मौस् प्रत्येकस्मिन् राज्ये केचन अन्यस्य अपेक्षया विकसिताः सन्ति पशुराजी अपि तथैव मूषकस्य अपेक्षया वानरः अधिकः विकसितः अस्ति देर् आर् क्वाण्टिटेटिव् डिग्रीस् आफ़् डेवलप्मेण्ट् वित् इन् इच् आफ़् देम् तेषु तेषु प्रत्येकम् अन्ते विकासस्य परिमाणात्मकभेदः वर्तते देर् इस् अ क्वाण्टिटेटिव् डिफ़्रेन्स् तर्हि वनस्पतिपशोः मध्ये अपि गुणात्मकभेदः वर्तते इति कारणेन पशुः वनस्पतेः अपेक्षया अधिकः बुद्धिमान् इति कथनं पर्याप्तं नास्ति बिकास् आफ़् द क्वान्टिटेटिव् डिफ़्रेन्स् वि के नाट् जस्ट् से देट् एनिमल्स् आर् मोर् इण्टेलिजेण्ट् देन् प्लाण्ट्स् तादृशी तादृशविवरणं पर्याप्तं नास्ति मूषकः वानरः च भिन्नौ किन्तु द्वौ अपि पशुराज्ये एव स्मः वनस्पतिपशोः मध्ये अपि गुणात्मकः भेदः वर्तते कथं गुणात्मकभेदः इति चेत् सस्यानां विषये वयं पादपाः इति वयं वदामः पादपाः पादात् पिबन्ति पशवः पादात् पिबन्ति परन्तु क्षम्यतां सस्यानि पादात् पिबन्ति वनस्प पादपाः सस्यानि पादात् पिबन्ति परन्तु पशूनां विषये तथा वयं पशु पशवः तथा कर्तुं न शक्नुवन्ति पशवः पादात् पातुं न शक्नुवन्ति इति कृत्वा अनयोः मध्ये गुणात्मकरूपेण भेदः वर्तते यतोहि सस्यानि पादपाः सन्ति पशवः पादपाः न सन्ति तेषां नामकरणं नास्ति अतः वयम् इमं भेदं वयं पश्यामः वनस्पतिपशवोः मध्ये परिमाणात्मकभेदः वर्तते परिमाणात्मकभेदः अस्ति परन्तु तदेव तत्र अनयोः मध्ये भेदः इति न अनयोः मध्ये गुणात्मकरूपेण भेदः अस्ति इति कृत्वा एव तत्र पशवः भिन्नराज्ये सन्ति सस्यानि भिन्नराज्ये सन्ति एवमेव पशुमनुष्ययोः मध्ये अपि एतादृशः भेदः वर्तते अतः मनुष्याः पशूनाम् अपेक्षया किञ्चित् अधिकविकसिताः एव इति वक्तुं न शक्नुमः अनयोः मध्ये गुणात्मकरूपेण भेदः वर्तते इति कारणेन एव एतेषां सर्वेषां भिन्नभिन्नवर्गाः सन्ति डिफ्रेण्ट् किङ्ग्डम्स् आर् देर् इति कृत्वा पशवः वनस्पतीनाम् अपेक्षया ते अनयोः मध्ये गुणात्मकरूपेण भेदः मनुष्यपशु पशुः मध्ये अपि गुणात्मकरूपेण भेदः वर्तते तर्हि इदानीं गुणात्मकभेदः कः इति चेत् गुणात्मकभेदस्य नाम अस्ति धर्मः इति गुणात्मकभेदस्य नाम वर्तते धर्मः अयं धर्मः एव एकम् अपरस्मात् भिन्नरूपेण प्रदर्शयति बिकास् आफ् द धर्म ईच् आफ् देम् इस् प्लेस्ड् इन् एफ्रेण्ट् केटेगरी तर्हि तत्र धर्मात एव एकः वर्गः अपरस्मात् भिन्नः भवति तर्हि धर्मः इति शब्दः गुणात्मकं प्रभेदं आरोपयितुं प्रयुक्तः अस्ति द वर्ड् धर्म इस् यूस्ड् टु शो द क्वालिटेटिव् डिफ्रेन्स् अनेन वयं वस्तुसमूहं भिन्नवर्गे स्थापयितुं शक्नुमः बेस् आन् द धर्म ईच् आफ़् देम् केन् बि प्लेस् इन् अ सेपरेट् केटेगरि द प्लाण्ट्स् हाव् डिफ्रेण्ट् धर्म एनिमल्स् हेव् डिफ्रेण्ट् धर्म एण्ड् ह्युमन् बीङ्ग्स् हेव् डिफ्रेण्ट् धर्म तर्हि अत्र धर्मः इति शब्दस्य को अर्थः इति चेत् धर्मः इत्यनेन कश्चन विलक्षणः गुणः यः एकस्मिन् जीवसमूहे वर्तते परन्तु अन्येषु जीवेषु न वर्तते धर्म इस् अ युनीक् केरेक्टरिस्टिक्ट् विच् इस् प्रेसेण्ट् इन् आल् दि मेम्बर्स् आफ् अ पर्टिक्युलर् ग्रूप् बट् इट् इस् नाट् देर् इन् अदर् ग्रूप्स् इति तादृशम् एव विलक्षणः गुणः यः एकस्मिन् जीवसमूहे वर्तते परन्तु अन्येषु न वर्तते धर्मः इत्युक्ते असाधारणः गुणः असाधारणः गुणः इदानीम् उदाहरणार्थम् अग्निः इति वयं स्वीकुर्मः चेत् अग्नेः असाधारणः धर्मः दहनं दहनमेव असाधारणधर्मः तर्हि अग्निः इति वक्तव्यं चेत् तर्हि कस्यचित् दहनं कुर्यात् तदानीमेव अग्निः इति वयं वदामः यदि किमपि दहति तर्हि सः अग्निः एव एवं अन्यत उदाहरणं जलं जलमिति वयं स्वीकुर्मः जलस्य धर्मः कः इति चेत् आद्रीकरणं टु मेक् थिङ्ग्स् वेट् वस्तूनि आर्द्रं कर्तुं जलं समर्थं भवति इट् इस् केपबल् आफ़् मेकिङ्ग् तिङ्ग्स् वेट् यदि किमपि अन्यवस्तूनि आर्द्रं न करोति तर्हि तद् जलमिति वयं न वदामः अतः जलस्य धर्मः आद्रीकरणम् अग्नेः धर्मः दहनम् अत्र धर्मशब्दः योगार्थे प्रयुक्तः अस्ति यथा न्यायशास्त्रे असाधारणधर्मत्वेन धर्मः इति शब्दः प्रयुक्तः अस्ति तत्र असाधारणधर्मः इत्युक्ते लक्षणम् इति वदामः न्यायशास्त्रे असाधारणधर्मः लक्षणम् इति वदामः अत्र योगे धर्मशब्दः तस्मिन्नर्थे प्रयुक्तः लक्षणम् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति योगशब्दः योगः योगिनः तस्मिन्नेव अर्थे धर्मशब्दः प्रयुञ्जते यः असाधारणधर्मः तस्मिन् समूहे सर्वेषु वर्तते परन्तु इतरसमूहेषु कस्यापि सः गुणः नास्ति यथा इति वदामः चेत् तत्र पादपः पादात् पिबन्ति इति धर्मः सस्येषु सर्वेषु वर्तते परन्तु अन्येषु न वर्तते इति कृत्वा तत्र धर्मः पादपः इति तत्र विलक्षणधर्मः अस्ति सस्यानां सर्वेषां प्राणिनां स्वकीयः धर्मः वर्धते सर्वेषां प्राणिनां स्वकीयः धर्मः वर्तते तर्हि एतावता किम् उक्तं तद् दीप भगिनी वक्तुमिच्छति वा ता वक्तु नमस्ते भगिनि अहं प्रयत्नं करोमि नमस्कारः भगिनि अत्र तु वयं मनुष्येषु अनन्तरम् अन्य पशूनामेव भेदः कः इति दृष्टवन्तः पूर्वं परन्तु अत्र तु मनिषेषु अन्य पशु पशूनाम् अनन्तरं तत्र सस्यानामपि भेदः कः इति दृष्टवन्तः तत्रापि मात्रात्मकः भेदः एव इति नास्ति गुणात्मकः वर्तते अत्रापि किमर्थम् इत्युक्ते तत्र पशूनां बुद्धि बुद्धिः भिन्न भिन्नभिन्न पशूनां गणे भिन्न बु, बुद्धिः अधिकाः अथवा न्यूनाः भवन्ति परन्तु तत्र इदानीं सस्या सस्यानि सन्ति गुणः अस्ति पादाभ्यां पातुं तद्गुणः अस्ति परन्तु पशु पशूनां कृते तद् नास्ति भिन्नगुणाः सन्ति पूर्वम् उक्तवन्तः खलु तत्र किम् अस्मा ते इच्छा अपि भिन्ना अस्ति सन्तुष्टाः अपि भिन्ना अस्ति पर अत्रापि भवति अतः गुणात्मः भेदः अपि इति अस्ति विलक्षणः गुणः अस्ति अस्ति धर्मः इति पशूनां धर्मः भिन्नः सस्यानां धर्मः भिन्नः मनुष्याणां धर्मः अपि भिन्नः भवति अतः स्वसीय धर्मः वर्तते इति एव अस्ति इति हा समीचीनं भगिनी सम्यक् अस्ति तर्हि अत्र सस्य सस्यमपि पशु अनयोः मध्ये गुणात्मकभेदः वर्तते मनुष्यपशोः मध्ये अपि गुणात्मकभेदः वर्तते गुणात्मकभेदस्य एव धर्मः इति नाम अस्ति धर्मः इत्युक्ते असाधारणः गुणः असाधारणः गुणः धर्मम् आधारीकृत्य एव प्रत्येकं एकस्मिन् वर्गे वयं स्थापयामः यूसिङ्ग् द धर्म वि प्लेसिङ्ग् द डिफ़्रेण्ट् केटेगरीस् आफ़् प्राणिनः इन् डिफ़्रेण्ट् वर्गास, इन् डिफ़्रेण्ट् किङ्ग्डम्स् तर्हि धर्मा इति शब्दः कः इति अस्माभिः ज्ञातं यथा उदाहरणार्थम् अग्नेः धर्मः दहनं जलस्य धर्म धर्मः आद्रीकरणं तर्हि इदानीं तत्र वयं पश्यामः चेत् हा तत्र सर्वेषां प्राणिनां जैवीधर्मः अस्ति जैवीधर्मः इत्युक्ते तत्र जीवितः अस्ति इति कृत्वा तादृशधर्मः सर्वेषां प्राणिनां वर्तते जैवीधर्मः सर्वेषां प्राणिनां धर्मः सः तु सर्वेषु प्राणिषु वर्तते वनस्पतिषु जन्तुषु मनुष्येषु सर्वेषु वर्तते इदानीं स्वधर्मः अत्र वनस्पतिनां स्वकीयः धर्मः वर्तते सः धर्मः मनुष्येषु च नास्ति एवमेव पशूनामपि स्वधर्मः वर्तते एवमेव मनुष्याणामपि स्वधर्मः वर्तते मनुष्येषु यः धर्मः सः धर्मः अन्येषु नास्ति इति अत्र जैवीधर्मः अपि च स्वधर्मः स्वधर्मः इति सर्वेषां विलक्षणः धर्मः वर्तते इदानीं तत्र पशुधर्मः इति वयं पश्यामः चेत् पशूनां धर्मः कः तत्र आहारः निद्रा भयं मैथुनञ्च इति पशूनां धर्मः तत्र एकः श्लोकः अस्ति प्रसिद्धः श्लोकः आहारनिद्रा भयमैथुनं च सामान्यम् एतत् पशुभिर्नराणां धर्मो हि तेषाम् अधिको विशेषः धर्मेण हीनाः पशुभिः समानाः इति श्लोकः वर्तते तर्हि पशूनां धर्मः कः इति चेत् आहारः निद्रा भयं मैथुनञ्च तत्र भयस्य अर्थः कः इति चेत् भयनिराकरणप्रवृत्तिः इत्युक्ते सुरक्षितवातावरणम् एव भयम् इति तत्र उक्तमस्ति भयनिराकरणप्रवृत्तिः पशूनां कृते भोजनम् आवश्यकमस्ति निद्रा अपि अवश्य आवश्यकी अस्ति भयस्य निवारणमपि आवश्यकमस्ति मैथुनम् इत्युक्ते प्रजननं प्रोक्रियेशन् तदपि पशूनाम् अपेक्षितं वर्तते इति एते सर्वे अपि पशूनां धर्मः आहारनिद्रा भयं मैथुनम् तदेव तेषां पशुत्वेन विशेषः एतान् आधारीकृत्य एव वयं पशुः इति वयं वदामः तर्हि वयं पश्यामः चेत् मनुष्याणामपि एते सन्ति अतः मनुष्याणामपि एते सन्ति अतः एते मनुष्याणां पृथक्करणं न कुर्वन्ति ये पशुधर्मः यः अस्ति मनुष्याणामपि पशुधर्मः वर्तते आहार निद्राभयमिति मैथुनमिति पनुष मनुष्याणामपि अतः एतान् स्वीकृत्य वयं मनुष्यं पृथक् कर्तुं न शक्नुमः एवमस्ति चेत् तत्र मनुष्यः अपि प्रायः तत्र पशु पशुराज्ये स्यात् परन्तु मनुष्याणां विलक्षणः धर्मः अस्ति आहारनिद्राभयम् मैथुनम् इति तु सामान्यम् अस्ति पशूनामपि सामान्यं नराणामपि सामान्यम् अस्ति परन्तु मनुष्याणां विलक्षणः कश्चन धर्मः अस्ति तादृशः धर्मः नास्ति चेत् मनुष्यः पशुभिः तादृशधर्मः धर्मेण हीनः यः यस्मिन् तादृशधर्मः नास्ति सः पशुभिः समानः अस्ति सः इस् ईक्वलन् टु एन् एनिमल् तर्हि इदानीम् अत्र अन्तिम विषयं दृष्ट्वा समापयामः अत्र मनुष्यः धर्मः मनुष्याणां धर्मः मनुष्या कः इति चेत् वयं पशुभ्यः वयं वयं सर्वे अपि पशुभ्यः आगताः अतः मनुष्येषु पशुधर्मः वर्तते अस्माकं पशुधर्मस्य अतिरिक्तम् अन्यदस्ति अन्यः धर्मः अपि अस्ति अस्माकः अस्माकम् अन्यः धर्मः अपि अस्ति यः अस्ति अस्माकम् अनन्तकामनाभिः निरूपितः अस्ति सः धर्मः सर्वेषु मानवेषु अस्ति असीमितस्य प्रापणम् एव मनुष्याणां धर्मः अनन्तेषणा अनन्तेषणा इति विलक्षणः धर्मः मनुष्येषु वर्तते सः एव मनुष्यम् अन्येभ्यः पृथक् करोति सः धर्मः एव सर्वभूतेभ्यः मनुष्यान् विनक्ति ह्युमन् बीयङ्ग्स् हेज् इस् इन्फैनैट् डिसैयर् डिसैयर् विच् डिस्टिङ्ग्विशस् देम् फ्रम् अदर् तत्र बुद्धिः इति विषयः तु सर्वेषु पशुषु अपि वर्तते मनुष्येषु अपि वर्तते तत्तु सामा सः तु सामान्यगुणः अस्ति सर्वेषु मनुष्येषु वर्तते परन्तु अत्र मनुष्यधर्मः कः इति चेत् अत्र अनन्तेषणा अनन्तस्य इच्छा इति गुणः एव अत्र मनुष्याणां धर्मः अस्ति तर्हि अत्र सरला भगिनी वदति वा अत्र किमुक्तमिति नमस्कारः भगिनि इदानीं वयं दृष्टवन्तः धर्म इति किम् अस्ति वस्तुतः धर्म इति यत् पदम् अस्ति धातु धृ इति धातुतः धातुत निर्मीयते धर्म इति धरति यस्य विहाय तत् वस्तु न भवति इति भवति धर्म यदा पूर्वं भवती उक्तवती न्यायशास्त्रे असाधारणधर्म इति अस्ति यथा यदि वयं पृथ्वी इति तस्य गन्ध वा अ, जलस्य धर्मः अस्ति शैत्यं द्रवितम् इति अग्निः यत् दहनं करोति उष्णम् अस्ति तो अग्निः न भवति सूर्य यदि तस्य प्रकाशः नास्ति तो वयं सूर्यं न वद् वक्तुं शक्नुमः इति तथैव यदि यदि वनस्पते पशूनाम् अपि मनुष्याणां धर्म भिन्नभिन्न सन्ति यथा पादप इति धर्म वयम् उक्तवन्तः यत् मूल मूलानि तस्य पिबन्ति ते अति वृक्षाः भवन्ति ये पशु पशु सन्ति तेषां धर्म इति भवती श्लोक उक्तवती किन्तु अहं न विस्मामि तस्य अस्ति आहार निद्रा भयं मैथुन्याम् इति तेषां बेसिक् धर्मः अस्ति आहारः यदि प अस्ति ते मनुषः पशवः इति सन्तुष्टाः भवन्ति निद्रा भयं भयं तेषामपि आरक्षणं स्वस्य आरक्षणम् इति अस्ति यदि ते अपि कोऽपि ते स्यां ते तैः हन्ति अथवा ते स्वस्य रक्षणं कृत्वा धावन्ति तद् सुरक्षार्थम् स्व स्वरक्षा स्वरक्षा स्वरक्षा तेषामपि धर्मः अस्ति मैथुनम् इति इति तेषाम् अस्ति किन्तु मनुष्याणां पशुधर्म प्लस् अन्य विलक्षणधर्म अस्ति मनुष्यस्य तस्य वयं दृष्टवन्तः अनन्तेषा इति एतमस्ति यदि प्राप्तिः अस्ति काचा पूर्व भवति तदनन्तरमपि अन्य इच्छा आगच्छति तु अप्राप्त्यस्य प्राप्तिः इति अपि सद सदैव मनुष्यस्य मनसि अस्ति इति अपि ते सन्तुष्टाः न भवन्ति यत् यत् किम् अपि तेषां प्राप्तिः भवति यथा विज्ञान वैज्ञानिक अस्ति एका विज्ञ एक अपि अन्वेषणं कृतवान् तत् अन्य अन्वेषणं कर्तुम् इच्छति राजनैतिक अधिकमधिकं पदं प्राप्तुम् इच्छति व्याकरणति अधिकमधिकं व्याकरणं इष्टुं इच्छन्ति इच्छायाः कामनायाः कोऽपि अन्तः इति अस्ति अनन्तेष् कसीमा इति अस्ति मनुष्याणां धर्म किन्तु अग्रे वयं पश्यामः मनुष्यस्य धर्मः किम् अस्ति इति यदि वयं ब्रह्मन् तस्य यत् अस्माकं तत्त्वम् अस्ति तस्य धर्मः अस्ति वयं पश्यामः अग् अग्रे समीचीनं भगिनि समीचीनम् इत्युक्ते अत्र सम्यक् इत्युक्ते सर्वेषाम् स्वकीयः धर्मः वर्तते सर्वेषामपि जैवीधर्मः वर्तते सर्वे जीवन्तः सन्ति इति कृत्वा सर्वेषां जैवीधर्मः वर्तते परन्तु एते जीविनः भिन्नभिन्नवर्गेषु सन्ति तेषां विलक्षणः कश्चन धर्मः अस्ति तादृशधर्मः केवलं तेषु एव वर्ते वर्तते सस्येषु विलक्षणधर्मः वर्तते सः धर्मः अन्येषु नास्ति एवमेव पशुषु अपि विलक्षणः धर्मः मनुष्येषु अपि विलक्षणः धर्मः पशुषु विलधर्मः आहारः निद्रा भयं मैथुनम् इति मनुष्येषु अपि तादृशः अस्ति पशुधर्मः अस्ति परन्तु तेन मनुष्यः इति वयं पृथक् कर्तुं न शक्नुमः मनुष्येषु असीमितस्य प्रापणम् एव मनुष्याणां धर्मः अनन्तेषण असीमितस्य प्रापणम् अचीविङ्ग् द इन्फैनैट् अटेनिङ्ग् द इन्फैनैट् एण्टिटि इस् द धर्म आफ् ह्यूमन् बीयङ्ग्स् manavaha dharmaha the universal dharma of all human beings is to attain the infinite entity ananteshana eva vilakshanaha dharmaha manishyana iti atra vayam saganam kurmaha koapi prashna astiva amogade <theek> atra <theek> matra ka iti cincid utpadakam matraya ha vedaha itte the quantitative difference so yadi vayam vadamaha vanaraha तत्र मू मूषकात् मूषकस्य अपेक्षया बुद्धिमान् इति वयं वदामः एवं मनुष्याः पशूनाम् अपेक्षया बुद्धिमान् इति वयं वदामः चेत् तत् वा जस्ट् द क्वाण्टिटि आफ् द डिग्री आफ् इण्टेलिजेन्स् इति पर्याप्तम् अस्ति वा मनुष्यपशोः मध्ये भेदः भेदं कर्तुम् इति चेत् मात्रात्मकभेदः इ् जस् क्वान्टिटेटिव् डिफ़्रेन्स् क्वाण्टिटेटिव् केवलं मनुष्यपशोः मध्ये क्वाण्टिटेटिव् डिफ़्रेन्स् अस्ति वा इति चेत् तथा नास्ति केवलं क्वाण्टिटेटिव् डिफ़्रेन्स् नास्ति तत्र इतोपि अधिकम् अस्ति किम् अस्ति इति चेत् गुणात्मकरूपेण भेदः अस्ति धर्मः भिन्नः अस्ति मनुष्यस्य धर्मः भिन्नः पशूनां धर्मः भिन्नः इति कृत्वा एव मनुष्याः भिन्नवर्गे सन्ति पशवः भिन्नवर्गे सन्ति एनिमल्स् आर् इन् डिफ़्रेण्ट् किङ्ग्डम् ह्यूमन् बीङ्ग्स् आर् इन् डिफ़्रेण्ट् किङ्ग्डम् यतोहि तयोः मध्ये गुणात्मकरूपेण दर् अ क्वालिटेटिव् डिफ़्रेन्स् धर्मः भिन्नः अस्ति केवलम इंटेलिजेंस इति स्वीकृत्य वयं वक्तुं न शक्नुमः यदि एवम् अस्ति चेत् तर्हि मनुष्याः अपि पशुराज्ये एव भवन्तु नाम परन्तु तथा नास्ति खलु मनुष्याः भिन्नराज्ये सन्ति किमर्थम् इति चेत् तत्र गुणात्मकरूपेण भेदः वर्तते अयं गुणात्मकभेदः एव धर्मः इति वयं वदामः मनुष्याणां धर्मः अनन्तेशन इति उक्तम् छात्रात्मक इति पदं कुत्रापि न दृष्टं मया एव पृष्टम् धन्यवादः कुत्रापि न द्रष्टुमित्युक्ते किं कोशेषु गुणात्मक गुणात्मक इति पदमस्ति मात्रात्मक इति पदं कुत्रापि नास्ति अतः एव अत्र अर्थं किम् इति मात्रात्मकभेदः इत्युक्ते अस्तु अन्यः प्रश्नः अस्ति वा शोधनं बहु सम्यक् कृतं भवत्या अत्र पशवः सस्यानि अनन्तरं मनुष्येषु किं किम् अत्र भवन्ति शोधनं बहु सम्यक् आसीत् महोदय समीचीनं भगिनी मम मम नास्ति अत्र सुरुक् महोदयेन यद् पठितं तदेव अहं पठयामि मम किमपि नास्ति अस्तु सम्यक् अस्ति विषयः सम्यक् अस्ति अस्माकं बहु लाभदायकं भवति वयम् इतः अग्रे गन्तुं शक्नुमः अतः भवन्तः अपि तत्र अग्रे गच्छन्तु इति उक्त्वा अत्र विरामः घोष्यते धन्यवादः नमस्कारः धन्यवादः नमस्कारः शुभरात्रिः महोदय सम्यक् आसीत् समीचीनं धन्यवादः भगिनी नमस्कारः